श्रीमद्भागवतपुराण श्रीमद्भागवत् महात्मे तृतीयोऽध्यायः सौन उवाच साश्चर्यमेतत्कथितं कथानकं ज्ञानादिधर्मान् विगणय्य साम्प्रतं निःश्रेयसे भागवतं पुराणं जातं कुतो योगविदादिसूचकं श्रूवाच यदा कृष्णोधरां त्यक्त्वा शपथं गन्तुमद्यतः एकादशं परिसृत्याप्युद्धवो वाक्यमब्रवीत् उद्ध उवाच त्वं तु यास्यति गोविन्दभक्तकार्यं विधायत मच्चित्ते महति चिन्ता तां श्रुत्वा सुखमावह आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः तत्सङ्गेनैव सन्तोऽपि गमिष्यन्त्योग्रतां यदा तदा भारवती भूमिर्गोरूपेयं कमाश्रये अन्यो न दृश्यते त्राता द्वद् कमललोचनम् अथ सूदयां कृत्वा भक्तवत्सलमाव्रज भक्तार्थं जातो निराकारो पिचिन्मयः तद्वियोगेन ते भक्ता कथं शास्थन्ति भूतले निर्गुणोपासने कष्टम् अत्र किञ्चिद्विचारय अत्युद्धौ च श्रुत्वा प्रभासे चिन्तयद्धरिः भक्तावलम्बनार्थाय किं विधेयं स्वकीयं भक्तवत् तेजस्तच्च भागवते दधात् तिरोधाय प्रविष्टोऽयं श्रीमद्भागवतार्णवं तेनेयं वाङ्मयी मूर्ति प्रत्यक्षा वर्तते हरेः सेम्नाश्रवणात् पाठादर्शनात् पापनाशिनी सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् साधनानि तिरस्कृत्य कलौ धर्मोयमीरितः दुःखदारिद्रदौर्भाग्यं पापप्रक्षालनाय च कामक्रोधजयार्थं हि कलौ धर्मोयमीरितः अन्यथा वै समीमाया देवैरपि सुसज्जतां दु कथं त्याज्या भवेत् त्वं हि सप्ताहूतप्रकीर्तितः श्रुत्वाच एवं न गाः समणोर्धर्मे प्रकाशमाने हृतबीसभायाम् आश्चर्यमेकं समभूतदानीं तदुच्यते सन् शृणुसोनकत्वं भक्ति श्रुतौ तौ तरुणौ गृहीत्वा प्रेमैकरूपा सहसा विरासीत् श्रीकृष्णगोविन्दहरे मुरारे नाथेति नामानि मुहुर्वदन्ती तां चागतां भागवतार्थमुभूषां सुचारुवेषां दधिषु सदस्याः कथं प्रविष्टा कथमागतेयं मध्ये मुनिमुनीनामिति तर्कयन्तः वचोकुमारावचनं तदानीं कथार्थतो निष्पतिताधुनेयम् एवं गिरसासुता निशम्य सनत्कुमारं निजगाद नम्रां भक्तिरुवाच भवद्भिरद्यैव कृतास्मि प्रोष्टां कलिं प्रणष्टापि कथारसेन क्वाहं तु तिष्ठाम्यधुना ब्राह्मा इदं तां गिरिमुचिरेते भक्ते सुगोविन्दसरूपकरति प्रेमैकधरति भवरोगहन्त्री सा त्वं चतिष्ठस्व सुधैर्यसंश्रया निरन्तरं वैष्णोमानसां ततोपि दोषा कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभुवोऽपि लोके एवं तदाज्ञावसरेऽपि तदा निर भक्ति तदा निषण्णा हरिदासचित्ते शकलभुवनमध्ये निर्निर्धनास्तेऽपि धन्या निवसति हृदयेषां श्रीहरिर्भक्तिरेकां हरिरपि निजलोकं सर्वथातो विहाय प्रविसति हृदि तेषां भक्तिसूत्रोपनद्धः द्यते किमधिकं महिमानमेवं ब्रह्मात्मकस्य भुवि भागवताभिधस्य यत्संशयान्निगदिते लभते सुवक्ता श्रोतापकृष्णसमतामलमन्यधर्मै इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमहात्म्ये भक्तिकक्षनिव नाम तृतीयोऽध्यायः